श्रीमन श्रीमहाभारत आदिपर्व संभवपर्ण षट्टीतमो अध्याय वैशंपाए न उच ब्रमणो मनस पुत्र विदिता षण एकता स्थाणो ख्याम तेजस मृगव्याधश्च सर्पश्च निरृतिश्च महायशाः अजैकपादहिर्बुध्नः पिनाकी च परन्तपः दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः स्थाणुर्भवश्च भगवान् रुद्रा एकादशस्मृताः स्मृताः मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलः षडेते ब्रह्मणः पुत्रा वीर्यवन्तो लोके सर्वत्र विश्रुताः बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः राक्षसाश्च पुलस्त्यस्य वानराः किन्नरास्तथा यक्षाश्च मनुजव्याघ्र पुत्रास्तस्य च धीमतः पुलहस्य सुता राजन् शरवाश्च प्रकीर्तिताः सिंहाः किं पुरुषा व्याघ्रा वृक्षा ईहामृगास्तथा क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः दक्षस्त्वजायताङ्गुष्ठाद् दक्षिणाद्भगवान् ऋषिः ब्रह्मणः पृथ्वी पालशान्तात्मासु महातपाः वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ताः सर्वास्त्वनप